मुपस्थितम् अनार्यजुष्टमस्वर्गम् अकीर्तिकरमर्जुन tiu जी जी प्रमुखे जिजी शेस्थिराषोपहत स्वभा ूढचेताः यच्छ्रेयस्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधिमां त्वां प्रपन्नं मापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमा वसपत्नृद्धम् राज्यं सुराणामपि चाधिपत्यम् पुराणामपि चाधिपत्यं सञ्चय उवाच एवमुक्त्वा हृषिकेशं गुडाकेशः परन्तप न इति गोविन्दम् उवा तूष बच हृषि केश प्रहसनिव च विषीदन्तमितम् Suna Gata Sumsha न चैव न भविष्यामः सर्वे वयमतः परम् सर्वे न मुह्यति यस्योक्ता शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युद्ध तस्माद्युध्यस्व So I am pura तिनपा देही नित्यमवध्योऽयं देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि शोचितुमर्हसि न त्वं शोचितुमर्हसि धर्म्याधि धर्म्याधियुधात् क्षत्रियस्य न विद्यते क्षत्रियस्य न लभन्ते युद्धमी लभन्ते युद्धमीदृशम् अथ चेत् त्वमिमं धर्म्यं संग्रामं न करिष्यसि ततस् धर्मं कीर्तिं चित्वा पापमपाप्स्यसि अकीर्ति मरना नेहामशस्तवा नीते स्वल्पम्य धर्मस्हतो भया महत भया यात्म बुद्धि हेके नंदना बहुशाखाच बुद्ध व्यवसाय बुद्ध व्यवस्थ पश्चितः वेदवादरता पार्थ नान्यदस्तीति वार्जुन निर्द्वन्द्वो नित्यसत्त्वस्य अहं <Gã entender> योगः कर्म karma... तेला a स्थितप्रज्ञस्तोचते दुःखेष्वनुद्विघ्नमनाः सुखेषु विगतस्पृहः वितरागभयक्रो stay हरन्तिप्रसभं मनः हरन्तिप्रसभं मनः तानि सर्वाणि संयम्य युक्त मत्परः वशे हि यस्येन्द्रिया अहं <sus> धाद् भवति सम्मोहः समोहात् स्मृतिविभ्रमः स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति बुद्धिनाशात् प्रणश्यति अहं <us> बुद्धिः पर्यवतिष्ठते शान्तस्य कुतस् सुखम् अशान्तस्य कुतस् न कामकामि स शान्ति न कामका श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययो a presentation from Bhagavad Gita Foundation for Vedic studies a section 8 non-profit organization established with ministry of company affairs government of india our foundation is working with an objective of imparting gita wisdom to 5 billion people that is over 50% of the world's population by 2050 irrespective of sectarian barriers like race religion or regions Once people understand their original source and the purpose of taking birth there is no question of hating on another or getting depressed in life for petty reasons their thoughts words and actions will be pure and they will only do dharmic deeds they understand that god is not a name or form to argue about with each other but an ultimate supreme energy which embeds all of us within it and makes us experience whatever we wish and whatever we deserve, with its supreme Maya. With Gita wisdom, people of different paths can live in harmony, making the world a better place to live in. For more details, or to join the biggest Jnana Yajna of the Kali Yuga, please visit our website, gitauniversity.in. G-I-T-A-U-N-I-U V-E-R-S-I-T-Y dot I-N To donate and support us Google Pay or Phone Pay on 8977031068 I repeat 8977031068 Don't forget to properly verify the foundation name Bhagavad Gita Foundation for Vedic Studies before making any donation Thank you जय श्रीकृष्ण ॐ नमः शिवाय सर्वे जना सुखिनो भवन्तु